मार्कण्डेयपुराणम् अध्यायं तटि मदालसोवाच नित्यं नैमित्तकञ्चैव नित्यनैमित्तिकं तथा गृहस्तस्य तु यत्कर्म तन्निशामयपुत्रः पञ्चयज्ञाश्रितं नित्यं यदेतत्कथितं तव नैमित्तिकं तथैवान्यत्पुत्रजन्मक्रियादिकम् नित्यनैमित्तिकं ज्ञेयं पर्वश्राद्धादिपण्डितैः तत्र नैमित्तिकं वक्ष्ये श्राद्धमभ्युदयं तव पुत्रजन्मनि यत्कार्यं जातकर्मसमं नरैः विवाहादौ च कर्तव्यं सर्वं सम्यग् मोदितं पितरश्चात्र सम्पूज्याख्यादानान्दीमुखास्तु ये पिण्डांश्च दधि सम्मिश्रान् दद्याद्यवसमन्वितान् उदङ्मुखप्राङ्मुखो वा यजमानसमाहितः वैश्वदेवविहीनं तत् केचिदिच्छन्ति मानवाः युग्माश्चात्र द्विधा कार्यास्तेजपूज्याः प्रदक्षिणं ये दन्नैमित्तिकं वृद्धौ तदान्यच्चौर्ध्वदेहिकम् मृदाहनिजकर्तव्यमेकोद्दिष्टं शृणुष्व तद् दैवहीनं तथा कार्यं तथैवैकपवित्रकम् का आवाहनं न कर्तव्यमग्नौ करणवर्जितं प्रेदस्य पिण्डमेकञ्च दध्यादुच्छिष्टसन्निधौ किलोदगं चापसव्यं तन्नामस्मरणान्वितम् दिस्थाने विप्रविसर्जने अभिरण्यदामिति ब्रूयात् ब्रूयस्तेभिरदा स्मः प्रतिभासं भवेदेधकार्यमावत्सरं नरैः अध संवत्सरे पूर्णे यदा वक्रीय नरिंडीकरण कार्य तत्र द्वरहित्यकनवर्जित अपसव्यञ्च तत्रापि भोजये भोजयेदयुजोद्विजान् विशेषस्तत्र चान्योऽस्ति प्रदिमासं क्रियाधिकः तं कथ्यमानमेकाग्रो वदन्त्या मे निशामयतिलगन्धोतकैर्युक्तं तत्र कुर्यात्पितॄणां त्रितयमेघं प्रेदस्य पुत्रकपात्रये प्रेदपात्रमर्घ्यञ्चैव प्रसेचयेत् ये समाना इति जपन् पूर्ववच्छेषमाचरेत् स्त्रीणामप्येव मे वै ददेगीदिष्टमुदाहृदं सपिण्डीकरणं तासां पुत्राभावेन विद्यते प्रतिसंवत्सरं कार्यमेकोद्दिष्टं नरैः स्त्रियाः मृदाहनि यथा न्यायं नृणां पुत्रा भावे सपिण्ठास्तु तदभावे सहोदकाः माधुस्सपिण्ठाये च स्यूर्ये च माधुसहोदकाः कुर्युर्यनं विधिं सम्यग्पुत्रस्य सुदासुतः कुर्युर्मादामहायैवं पुत्रिकास्तनयास्तथा द्व्यामुष्यायणसंज्ञास्तु मातामहपितामहान् पूजयेयुर्यथा न्यायं श्राद्धैर्नैमित्तिकैरपि सर्वभावे स्त्रिय कुर्युः स्वभर्तृणामन्त्रकम् तदभावे च नृपधि कारयेत्स्वकुटुम्बिना तज्जादीयैर्नरैः सम्यक् दाहाद्याः सकलाक्रियाः सर्वेषामेव वर्णानां बान्धवो नृपतिर्यतः यतास्ते कथितावत्स नित्यनैमित्तिकस्तथा क्रियां श्राद्धाश्रयामन्यां नित्यनैमित्तिकीं शृणु ददर्शस्तत्र निमित्तं वै कालश्चन्द्रक्षयात्मकः नित्यादां नियतकालस्तस्या संसूचयत्यथ यदि मकंडेयपुराणे अलर्काशासने नैमितिश्राद्धको ओम।